सद्योः जातो गृषभः कने न प्रभक्तुमावगन्ध सुतस्य साधोः पीवप्रतिकामम् यथा दे रथा न प्रथमम् सोम्यस्य यज्ञथास्ततः रस्य कामेम् जनित्रे महापितृतमहासिं चरग्रे उपस्थाय मातरमन्न मैट्टदिग्मपश्यदभिसो मूधाः प्रजापयन्नसो अन्यान्महानीचक्रे पुरुधप्रतीकः उग्रस्तु राषालभिभूद्योजा यथा वसन्तन्वञ्चक्रजेषः ष्टाः रविन्द्रो जनुषाः विभूजामुष्यासो मामपि बच्चमूषु सुरम्भुवेमघवाः नविन्द्रमस्मिन्भरे नृतमम्बाज सातौ शृण्वन्तमुग्रमूतये मुग्रमूतये वृत्राणि सञ्चितम् संचितं संसार महामिन्द्राम् यस्मिन् विश्वाः दृष्टयः स्वमपाः काममव्यमे तुम्मे बिभदष्टम् घनम् वृत्राणाम् जनयम् देवा जन्मग्निः प्रदानासु स्वराजम् विदतराजितामम् हरिष्ठा जिनतामस्सत्त्वाभिर्योः अविनादा प्रसुज्रयाविनादाजुर्दस्योः मृत्सुतरनिर्मार्वा व्यासी रोदी मेहनावान् भगवनकारेऽहव्यो मदीनाम् पिते बचानुः सुहवो भजोधाः धर्तादिवो रज सस्पृष्टभूर्धोरधोन वाजुर्वसुभिर्नियुत्वान् क्षपाम् हस्तानिता सूर्यस्य विभक्ता भागं धिषणे ववाजम् शृणभूवेव मघवाः नमिन्द्रभस्मिन्भरे नृतमम्बाजसातौ शृण्वन्तमुग्रभूतये समत्सुघ्नन्तम् वृत्तानि सञ्चितम् धनानाम् इन्द्रस्वाहाभयस्य सोम आगत्या तुम् रामः वृषभो मरुत्वान् ्यजाः रास्य हविस्तन्वा वृद्ध्याः आदेशपर्योजवसेजुनद्वीजोरणप्रतिपसृष्टिमावाह इत्वाधेजुर्हरजस्तुति प्रपिपात्वा अस्य सुषूतस्य चारोः गोभिर्म मेक्षुन्दधिरयसु पारमिन्द्रम् ज्येष्ठ्या जधाजसे ग्रनाः मन्दानः सोमम् पपि वाम् समस्मभ्यम् वृथा गाजीषण्य इमम् कामम् मन्दजागोभिरश्वन्द्रवताराधवप्रथश्च स्वर्गवामतिभिस्तभ्यम् विप्राजिन्द्रायवाहकुशिकासोः अक्रन् श्रम्भो वेम मघवानविन्द्रमस्मिन् भरे नृतमम् वाजसातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्तानि सञ्चितम् धनानाम् धनानां मघवान बुद्ध्या अमिन्द्रम् गिरोहतिरभ्य रोदत आधानम् पूर्भूतम् सुव्यक्तिभिरमत्यम् जरमानम् दिवे दिवे शतक्रदवन्नवम् साकिनम् नरम् गिरोमयिन्द्रमुपयन्ति विश्वताः वाचशनिम् पोर्भिदम् तूर्णीमप्तुरम् धामसा चमभिषाचम् सर्वविदम् आकरे वसो जलितापनश्च तेनेह सु भजिन्द्रो प्रिये सत्रासाहमभिमादिहनम् स्पृहि मुत्त्वा कृतामङ्गीर्भिरुक्तैरभिप्रभीरवर्तता सब सौन्दे गुरुमायोजीः ते नमो अस्य प्रतिभजे काजीशे भूर्वीरश्च निःश्रिधामर्त्येषु कुसूवसू निपृथिवी इन्द्रा यद्या ववोषधीर्वापो रजिम् रक्षन्ति जीरजोपनानि तुभ्यम् ब्रह्माणि गिरजिन्द्र तुभ्यम् सत्रादधिरे हरिवो जुषस्व गोभ्रा आविरवसो नूतनस्य सखेवसो चिरितृभ्योपयो इन्द्रमरुत्व इह वा युशोमम् यथा स्याते अबीवस्तु तस्य भव प्रणे चेतवसुरसर्मन्नामी वासन्ति कमयः सु यज्ञाः समावसान इह पायिरोमम् अरुद्धिरन् रसखेभिः आप्तूर्ये मरुत आभिरेषो मन्देन्द्रमनुदादिवाराः तेभिः साकम् पीबतु वृत्तखादः सुतम् सोमम् दासुभस्वे सधस्ते इदम् ह्यम्बो जनदाम् राधानाम् पदे अस्य गर्वणः यस्ते अनश्वधामसत्सुते नियच्छतन्वं त्वा मम रते अस्मात् कुक्षा प्रेन्द्रब्रह्मणाशिरः रबाहूषो रराधासे ध्यानवन्तम् करम्भिनमभूपवन्तमुत्थिनम् इन्द्रः प्रातर्जुषस्वनः तुभ्यम् हव्यानिसिस्रते पुरोसम् च लोभसो जोषया से गिरश्च नः भूयुरिवजोषाणाम् पुरोडासम् धनश्रुतप्रातः सा वेजोषस्वरः इन्द्रक्र दुर्हिते बृहन् मार्ध्यम् निरस्य जवणश्च धारा यस्तोतजरितादूर्ण्यर्थ वृषाय मा न उप गीर्भिरीट्टे त्रिये धानास्वने पुरुक्तुल पुरोलासमाहूतम् मा महस्वरः रुभवन्तम् वाजवन्तम् त्वागभे प्रयस्वन्त उप शिक्षेमधीतिभिः ऊषण्वदे ते जकृम्भम् हरिवदे अपोपमध्यसगानो बलद्भिः सोमम् विभवृत्रः सूरविद्वान् प्रदेघानाभरदतो यमस्मै पुरोरासम् वीरतामायगृणा दिवे जिवे सदृशेरिन्द्रतुभ्यम् वर्धम् दुक्त्वा सोमपेयाजधृष्णो इन्द्रापर्वता बृहता रथेन वामेरिषावहतम् सुवीराः ीम् भव्याध्वरेषु देवावर्धेताङ्गेभिरलजापदन्ता तिष्ठा सुखम् मघवन्वापरास्वमस्य न क्वासुषु तस्य यक्षि पितुर्नस्य च मार भेद इन्द्र स्वाधिष्ठया गिरास जीवः शंदावाध्वर्यो प्रतिमेहीन्द्रायवाहः क्रणवामजुष्टम् चेदम्बरिहर्यजामानस्य सीताधा जूदुःखमिन्द्रायसस्तम् यावेदस्तम् मघवांसे ऋजो निस्तदित्वा युक्ता वहन्तु यदा कदा च सुनवाः भसो मा भग्ष्ट्वा धूतोधन् वार्त्यच्छाहिमघवन्ना च याहेन्द्रभ्रादरुभयत्रा ते अर्थम् तत्रा रथश्च बृहतो निधानम् विमोचनम् वाजिनो रासभस्य पासपमस्तमिन्द्र प्रजा हि कल्याणीर्जायासुरणम् गृहेते यत्रारथस्य बृहतो निधानम् विमोचनम् वाजिनो दक्षिणावत् इमे भोजा अङ्गीरसोऽभिपुत्रासो असूरस्य वीराः विश्वामित्रायततो मघानि सहस्रसामे प्रतीरम् दायुः रूपम् रूपम् मघवा वो भवीति भाजा कृतन्वा बा। अम्बरि स्वा यद्दिवः परिमुहूर्तमाघाः स्वयर्मन्त्रैर्भृदुपाता वार्देव दे भजा देवजूतोस्तभ्रात् सिन्धुमन्दवम् प्रचक्षाः विश्वामित्रो यदवहत्सुदा समप्रियायत कुशिकेभिरीन्द्राः हंसाजैव कृणथ श्वोकमद्रेभिर्मदम् तो गेर्भिरद्धरे सुते स देवेभिर्भिप्रारिषयो नृचक्षसोऽपिभध्वम् कुशिकाः सोम्यम् वधु उपप्रेतकुशिकाश्चेदगध्वमस्वम् राजे प्रपुञ्जता सुदासाः राजा वृत्तम् जङ्घणत्रागभागुतगता राज देवनः पृथिव्याः यजिमे रोदसी मुहे अहमिन्द्रमदुष्टवम् विश्वामित्राय रक्षते ब्रह्मेदम् भारदञ्जनम् शिशामित्रा अरासद ब्रह्मेन्द्रायवज्रिणे करदिन्दः सुराधसः किञ्चे कृषु काफोटाशिरम् दुःखेन त भन्ति घर्मम् आलोभरप्रमागन्धस्य वेदो नैच साकम् माघवन् रन्धयानः स सर्परीरमाजिम्बाधमाना बृहन्मी मायजमदग्निदत्ता आदूर्यस्य दुहिता न श्रवोः देवेष्वृतामधुर्यम् स सर्परीरभरत् तूज मेभ्योधिस्रवपाजन्यासु वृष्टिषु सा भक्ष्या आनम् जमाजर्दधा नाजाम् मे बलस्थिरपदग्नयो दनुः शिरौ गावो हाराम् वेधुरक्षो मेढाविमायुगम् विहारि इन्द्रः पादल्ये ददताम् सलेतोररिष्टने मे अभिनः स देहि तनूषु न बलमिन्द्रनलुत्सू बलम् तोकायतनयाय जीवसे त्वम् हि वता असि अभिव्ययस्वखदिलश्च सा रमोजो ओधेहि स्पन्दने शिंसपायाम् अक्षवीलो वीलित वीरजस्व मायामादस्मादवजेहि पोनः अयमस्मा वनस्पधर्मा च माचारी स्य गृहेभ्यः विमोचनात् इन्द्रादिभिर्बहुलाभिर्न अद्यया छेष्टाभिर्मघवान् शूरजिन्व चोराष्टध रस्पदेष्टयमुष्पस्तमु प्राणो जहातु रसुसिद्विपतिसिम् बलम् सिद्विगृष्टति हन्ति प्रयस्ताफेन पश्यति स्य जिगिते जनासो लोधम् नयन्ति पशुमन्यमानाः नावाजिनम् वाजिना ना हासयन्ति न गर्दभम् पुनो अश्वान् नयन्ति इमजिङ्गभरतस्य पुत्रापि भित्तम् चेदम् न प्रभित्वाम् हेन्मन्त स्वमलरङ्गनित्यम् त्या इमम् महे वेदध्यायदोषम् सस्वत्र त्वजीव्याय प्रजभ्रुः शृणोतु नोदम्येऽभिरणीकैः शृणो त्वग्निर्दिव्यैरजस्रः महे महे दिवे अर्चा पृथिव्यै कामो च रतिप्रजानन् ययोर्हस्तो मे विदधेषु देवाः स पर्यवोपादयम् ते स सत्यमस्तु युगोर्हृतम् रोदसी सत्यमस्व महेषुणस्तु पिताजप्रभूतम् यिलन्दिपे नमो अग्ने पृथिव्यैत सा साजा साजाभिवत्रम् भूर्व्याः विभिद्रहृताः बली रोदशी सद्यवाचाः नूरदासौ वन्दिरे वृथिविवे विधानाः को अधावेध प्रवोचद्देवाच्छापथ्या आशमेति ये रामपमासताम् शिभरेणुजागुह्येणुव्रतेषु कविन्दृचक्षा अभिषेमचश्च ऋतस्य चो नाविघृते वदन्ति नाचक्रादे सदनम् यथा वे समाने नक्रदूना संविधाने समान्या वियूते दूरे अङ्गे ध्रुमे पते तस्थतर्जागरूके त स्वता राजवती भवन्ति आरुब्रुवादे मिथुनानि नाम विश्वे देते जनिमासम् विहो देवान्विभ्रदीनम् व्यते एतद्ध्रुवम् पत्य देवि स्वमेकम् च रक्तदत्रिविषू न विजातम् स नापुराणमध्ये ज्ञानान् महत् पितुर्ज देवासो यत्रापनिदारगेवैरुलौपसिं यूधेतस्तु नन्दः इमम् स्तोमम् रोदसीत् प्रब्रवीम् युजोदराशृण्वन्नग्निजिह्वाः नेत्रः सम्राजोवरुणो युवानादित्यादः कवयः क्वप्रधानाः हिरण्यवाणिः समितासु जिह्वास्त्रिरादिवो विदधे पत्ययमानः देवसविदस्वो नमःभ्यमासूप सर्वतादिम् सुकृत्सु पाणिस्व वाङ्कृता वा देवस्ताव सेतानि नोधात् ऊषण्मन्तर्भवो मादयध्वोग्रावानो अध्वरमातष्ट विद्युद्रता मरुतरुष्टिमन्तो दिवो मर्या सरस्वती दृढवन् ज्ञया सोधाता सहवीरं दहवीरम् दुरासः पिष्टम् स्तोमासः कुरु दस्मर्कभगस्येव कारिणो जामाणिग्मन् गुरुक्रमकगुहो यस्य पूर्वीर्णमर्थम् द्विजुवदयो जनित्रीः इन्द्रो विश्वैर्वीर्यैः पत्यमानमुभे आपप्ररोदसीमहित्वा पुरन्दृत्राधिष्णुषेणः सङ्गृभ्या नाभराभूरि वस्वः नासर्त्या नासत्यामे पितरा बन्धुवृच्छा सजात्यमस्विनाश्चारुणाम इवम् युस्तौरयुगौ नो रजीरात्रम् रक्षेथे अकवैरदब्धा मम तद्वः कवयश्च रुणामयद्ध देवा भवधविश्व इन्द्रे स खरुभिः पुरुहून प्रियेभिमाम् धियम् सता नः अर्यमाणो अदिदर्यै यासो दग्धा व्रतानि योत नोर्हत्या निगन्तो प्रजावान्नः पसुमास्तु गातुः देवानाम् दूतपूरुधः प्रसूतो नागान्नो वोचतु सर्वता शृणोतु न पृथिवेज्यो रुदाभःसूर्यो नक्षत्रेरुर्वा अन्तरिक्षम् शृण्वन्तु नो मृष नः पर्व दासो दृढक्षेमास इलजापदन्तः आदित्यैर्न अधिशृणो द्विगच्छन्तु नो मरुतः शर्म भद्रम् पन्थामध्वा देवावोषधीः सन्तिभृक्ता भगवो मे अग्ने सख्येन वृद्ध्या वुद्रायो अस्याम् सदनम् पुरुक्षोः स्वदस्वहव्या विनोदिदे स्मद्या अत्सम् मेमेस्रवांसि विश्वाङ्गग्ने मृत्सुताम् जेष शत्रूनः विश्वा सुमनाधिहीनः पूर्वा अधयद्युषर्महद्विजज्ञे अक्षरम् पदे गोः वृतादेवानाम पाणप्रभोहुगणम् महद्देवानामसुरत्वमेकम् ओ नो नो अत्र जुहुरन्तदेवा मा पूर्णे अग्ने पितरः पदज्ञाः पुराण्योः सद्मानोः केतुरन्तरमहद्देवानामसुरत्वमेकम् विमे पुरुत्रायन्ति कामासं यच्छाजीद्ये भूर्व्याणि समिद्धे अग्रावृतमिद्वा देव महद्देवानामसुरत्वमेकम् समानो राजा बिभृतः पुरुत्रासये सया सुप्रजूतो वनानु अन्या वत्सम्भर दीक्षेति दी माता महद्देवानामसुरत्वमेकम् महद्देवाना हा शित्वर्वास्व अनोरुत्सद्यो जाता सु करोमिष्वन्तः अन्तर्वादे सुपते अप्रवीता महद्देवानामसुरत्वमेकम् स योः परस्तादधनद्विमाताभन् धनश्च रजि एकाः रूढस्य व्रतानि महद्देवानाः वसुरत्वमेकम् विवाता होताः विदधे सङ्ग्रारङ्ग्रन्तर दीक्षयति बुद्धः ररण्याः निरण्यवाचो भरन्ते महद्देवाना वसुरत्वमेकम् सूरस्येव युध्यतो अन्तमस्य प्रतिचीरम् ददृशे विश्वमायत् अन्तर्मतिश्च रतिर श्रीधङ्गोर्महद्देवानामसुरत्वमेकम् निरे दूतः स्वन्तर्महाश्च रतिरोचनेन बभूंषिबिभ्रदभिनाविचष्टे महद्देवानामसुरत्वमेकम् विष्णुर्गोपाः परमम् पातिपाथप्रिया धामान्यमृदा दधानः अकृष्टा विश्वाभुवनानि वेद महद्देवानावसुरत्वमेकम् नानाचक्रादे यम्या आपूवम् हृदयो रङ्गत्रोच जय कृष्णमन्यत् श्यावी जयदरूढि दस्वसारौ महद्देवानावसुरत्वमेकम् माता जयत्रा दुहिता च धेनु मद्दुघे धापजेते समीची ऋदस्य ते सदा सीरे अन्तर्महद्देवानाः मसुरत्वमेकम् अन्यस्याः वत्संव्रीहती मीमा जगजाः भुवानि दधे धेनुरूधाः ऋदस्य साप य सापिन्वणाः महद्देवानाः मसुरत्वमेकम् अपद्यावस्ते पुरु पावपूंश्योध्वादस्तोत्रीम्रेलीहाना त्रिदस्य रामि विद्वान् महद्देवानावसुरत्वमेकम् पदेयी वनिहीते तस्मे अन्तस्तयो रन्यद्गुह्यमाभिरन्यत् ीलाभ्या आशाविषूची महद्देवानाः मसुरत्वमेकम् आधे नवोधुनयन्तामसि श्री स भर्दुगा स स च अप्रादुग्धाः नव्यानव्यायुवत यो भवन्तिर्महद्देवानाः मसुरत्वमेकम् यदन्यासो वृषभोरोर वीधितो अन्यस्मिन् यूथे निदधातिरेदाः स हैक्षवान् स भगस्व राजा महद्देवाना वसुरत्तमेकम् ईदरस्यनुश्वस्यम् जना स कृणुवो चाम विदुरस्य देवाः षोडायुक्ताः पञ्च पञ्चावहन्ति महद्देवानावसुरत्तमेकम् देवस्त सविता विश्वरूपः पुकोषः प्रजाना इमाजविशान्यस्य महद्देवानामसुरत्नमेकम् महीषमीरसंवासमीति उमे अस्य वसूनान् प्रेष्टे शृङ्गे वीरो विन्दमाना वसूनि महद्देवानामसुरत्नमेकम् ङ्गपृथिवीम् विश्वधा या उपक्षेति हिरमित्रो न राजा पुरःसदः सर्वीरा महद्देवानामसुरत्वमेकम् निःशिद्धरे तवगाधीरुतापो रयिन्तयिन्द पृथिवी बीभर्ति रयस्तेवामभाजस्या महद्देवानामसुरत्वमेकम् ्राह्ना अपि वातजमनाः ओ हरिः ओमे नन्दिमालिनौ न धीरा व्रता देवानाम् प्रथमाध्रुवानि नरो नरोदशेषुवाेद्याभिन्नपर्वकानि गमे तस्थिवांसाः षड् भाराण्येको अचारम् बिभद्रतम् वरिषष्ठमुपगाभागुः विश्वमहीरुपरास्वस्तु रत्यागुहा दर्शेकाजस्य वृषभो विश्वरूपोपभृत त्रिधापूरुधः प्रजावान् नीकः पच्यते माहीना वांसेतो वृषभः स्वीना ीरबोध्यादित्यानामत्वे चनाम आपश्चिदस्मा रमन्ददेवे पृथग्वजम् देश्वरे देवभन् त्रिषधस्यादिन्दवस्कृष्ट वीलामुत त्रिमाला विदधे सम्राट् स्ति स्वाभ्यास्त्रिरादिवो विदधे पत्यर्वा याणि दिवे दिवासु ब्रह्मा अह्नाः त्रिधातु राज आसु वापसो निभगत्रादर्जिगणे सातरे धाः स पितासोष वेति राजाः नामित्रावरुणासु ना पाणि आपस्थितः सर्वदा से च दुर्भिरत्रम् भिक्षन्दस पितुः समाज त्रिरत्तमादूनसा रचनानि त्वयो राजन्त्य सूरस्य वीराः गावानगि शिरा दूरभाः क्वाविदम् मनीषाम् धेनुम् चरम् प्रयोधामगोपाम् सद्यश्चिद्यादु दिहे भूरि धातेरिन्द्रस्तदग्निः पविकारो अस्याः इन्द्रः सुहस्ताः विश्वे यदस्याम् निर्णयन्त देवाः प्रवोत्र वसवः सुम् नमस्या याजापजो इच्छं यच्छन्ति सत्यम् न मस्यन्ते निर्जानते गर्भमस्मिन् रक्षाः पुत्रम् धेन वाना वा वा परश्चरन्ति बिभ्रातम् वपूम् हि जिजुमेघे द्राह्मजुजानो अध्वरे मनीषा इमा भूदेव न बैभूरिवारा ऊर्ध्वा भवन्ति दर्शदागजत्राः या ते जिह्वा मधुमति सुमेधा अग्नेः देवेषु च बुरुचि ्वा अवतेजत्रानासारादय पादया चापधूनि जाते अग्ने पर्वतस्येवन्तिपयद्देव चित्रामस्मभ्यम् प्रमदिम् चातवे दोपसोदास्व सुपतिं विश्वजन्या धेनुः प्रत्यस्य काम्यन्दुहानान्तः पुत्रश्च रतिदक्षिणायाः आद्यम् वहति शुभ्रजा मोषध स्तोमो अश्विना वजीगः सुयुग्महन्ति प्रतीमामृतेोद्वा भवन्ति पितरेः ममेधाः जने धामस्तर्वाणीरा युवनवश्चिरस्मै सुहृदारथे रजस्राम् स्वगमग्रेः इमङ्गपाम् प्रत्यवर्तिङ्गमिर्विप्रादोऽश्विना राजाः ङ्कस्थिते वैर्विश्वे जना स्वस्तिनाहवन्ते वाम् गुरुजिदामधो नेत्रमित्रा सो न ददुरस्रो अग्रे शिरः पुरो चेदश्विना रजाम् श्याम् गोषोबाम् मघवानाजनेषु म्पतिभिर्देवयानेतस्राभिमेवाम् निधयो मधूना पुराणोकः सख्यम् शिवम् वाम् युवोर्न रात्रमीनम् चव्या पुनः क्रण्वानाः सख्या शिवानिमध्वा मदेमसहनुषमानाः अश्विना वायुनायुवं सुदक्षा निजुद्भिश्च सजोषा सा युवाना नासत्यरो अन्युघाना सोमम् विपदमसृता सुतानु अश्विना परिवामिषः पुरो चेजर्गेर्निर्गतमाना अमृद्ध्राः अथो वामृतजा अद्रेजूतः परिद्या वाीजादि सद्यः अश्विनामधिषुत् मोजवागुः सोमस्तम्बाधमागतन्दुरोणे रतो भूरिपर्पः करि कृत्सुतावाधो निष्कृतमागामिष्टः नेत्रो जनान्यालयनि ब्रुवालो मित्रोदाधारपृथिवीमुद्या नेत्रः कृष्णेन निमिषाभिचष्टे मित्राज हव्यम् धृतवज्युहोत मित्रमर्तोप्रजस्वान्यस्त आदित्यशिक्षादिव्रतेन न हन्यतेन जीवीयते त्वो दो नैरमम् भो अश्वाप्यन्ते दो न दूरात् अनमेवासिलयामदम् त्वमितज्ञ भोपरि वह्ना आदित्यस्य प्रथमोपक्षिजङ्गोः वयम् मित्रस्य सुमतोऽ स्याम अजम् मित्रो न मस्य सुजेवो राजा सुक्षत्रोऽजनिष्टभेधाः अस्य वयम् सुमतौ यज्ञ यस्यापि भद्रेधो त्यो नमासोपसद्यो यातयज्ञ नो गणते सुसेवाः तस्मा चेतत्पन्नतमा चतुष्टमग्नौ मित्राय हविराजुहोत मित्रस्य दर्शनीहृतो देवस्य दादशी जुम्नम् चित्रश्रावस्तमम् अभियो वा हिनादिमम् मित्र बभूव सप्त अविश्वरोऽभिपृथिवीम् नेत्रायपञ्चाजेऽभिवेदना अभिष्टे समसे स देवान्निश्वान् विभर्ति मित्रा देवेश्वायुषु जना च वृत्तपरिषिषे इहयिष्टव्रताकः इहेह भोपनसा बन्धुदा नरवसुजो जग्मुषा निवेदसा याभिर्माजार्पदे ज्योतिमर्पदः सौधम्बरा जग्यमानसा याभिस्तेभिस्तमसा कपिम्सयाधिया गामरेणीगचर्मणः येन गेमनस निरदक्षतते न देवत्वप्रभवः समानस इन्द्रश्च सङ्ख्य प्रभवः नपातो धर्मघोर्गपातो अपसोदधन्विरे सौधन्वनासो अमृदत्तमे रीरे विश्वे समेभिः सुकृतस्वकृत्यया इन्द्रेण याथ शरथम् श्रुते स चामोऽवसानहस्रया नव प्रतिमेषु कृतानी वागतसौधन् वनानुभवो वीर्य इन्द्रारुभिर्वाच वद्भिः समुक्षितम् सुतम् सा ममावृषस्यागमश्च जि ये श्रीराम गान्धाजु गृहे सौधन् वनेभिः स्वगमस्वामिभिः वाजवान् वत्सेहतोऽस्मिन् सवले सच्च पुरुष्कुलिमानिभ्याम् साराणिजमिलेभ्रादेवानाम् मनुषश्च धर्माभिः इन्द्राभुभिर्वाजभिर्वाजयन् निहस्तामं धरितुरुपाजाहि जज्ञम् शतम् चेतभिरुषभिराजवेरे सहस्राणि सो अधरस्य होमानि पुषो वाजरे न वाजिनिपजस्त्वामम् जृढस्व गृहतो माघोनि पुराणी देवी पुरन्धिर्णञ्च रसि विश्ववारे पुषो देव्यमर्त्याभिभा सूताजीरयन्ति आत्वा वहन्तु सुयमासो अस्वाहिरण्वर्णाम् पृथुपा च सोऽजे उषा प्रतीचे भुवना निविश्वो ध्वातिष्ठस्य मृतस्य केतुः समानमर्थम् धरणीयमानाचक्रमीपरम् यस्या ववृत्स्व अभस्यू मे वजिन्वती मघवान्युषाजादिश्वसारस्य पत्नी स्वाहार्जुनन्ति सुभगाः सुसंसा आन्ता दिवः पथा पृथिव्याः अच्छावो देवी मुदम् विभातिम् प्रभो भरद्भङ्गमसा सुहृत्यम् ऊर्ब्रह्म दुधा दिविपाजो अश्रेन्वरो धरारुरुचैरण्मसन्दृगे ृतार्चैलबोध्यारेदसी चित्रमस्तात् आयति मग्नपुषदम् विभाति वा भिक्षमाणः ऋतस्य बुद्धकुषदा रामिषण्डम् नृडा मही रोदसी आविवेश महीमित्रस्य वरुणस्य माया चन्द्रेव भानम् विदधे पुरुद्धा इमावो वाम् भ्रमजो मन्यवाना युवा वा तेन तुज्याभूमन् वा अत्यदिन्द्रावरुणादिशो वाञ येन स्मासिनम् भरतः सहभ्यः अजमो वाम् पुरुतमो रदीयाञ्छतमपरतेजोहवीति रजोडाविन्द्रावरुणा वरद्भिर्दिवा पृथिव्याहृणुदम्हवम् मे अस्मे रजिन्द्रावरुणावशिष्यादस्मे रजिर्मारुदः सर्ववीरः अस्मान्वरोत्रेश्वरणैरवन्त्वस्मान्होत्राभारते दक्षिणाभिः बृहस्पते जुगस्व नोनि विश्वदेव्या सा स्वरत्राणि दासुषे श्रुते मर्तेर्बृहस्पतिमध्वरेणो नमस्य र्षणीना विश्वरोपपदाभ्यम् नृहस्वतिम्बरेण्यम् इयम् ते भूषन्नाघने सुष्ठु दर्दे वनव्यासि अस्माभिस्तुभ्यम् सस्यते वाधियम् मम वाजयन्ते मियम् यो विश्वाभिपश्यति भुव नासम् च पश्यति स नः पूषापिताभूवद् देवस्य स पितुर्भयम् वा जयन्तः पुरम् जा भगत्स रातिमीमहे देवम् नरस्य वितरम् विप्रायज्ञेस्तु वृत्तिभिः नपस्यन्ति धियेषिताः जिगादिगादिदेवाना हैरे श्रुतम् ऋतशीवासदम् सोमा अस्मभ्यम् द्विपदे च दुष्पदे च पशवेः अनमेवायुषस्करत् अस्माकमायुर्वर्धयन्नभिमादे सह मानः सोमः सधः समासदत् आलो मित्रावरुणा घृतेर्गव्यो निक्षलम् मध्वा न जान्ति सुक्रतु गुरुशन्दा नमो वृधा मह्ना रक्षस्य राजसः द्राभृष्टाभिः सुजं व्रता गृहानाजपदग्निनाजो नावृतस्य सीदतम् आतम् सोमावृता वृधा विश्वेश्वराय ो जग्नेशतमित्सभञ्जवो देवासो देववारुन्ये दिनजुदिक्रत्वा हन्ये दिने अमत्यञ्जयदमत्येष्व देवमादेवञ्जनदर्पजे तथम् विश्वमादेवञ्जनदर्पजेतधम् ्रातम् ज्येष्ठम् यज्ञपालसम् दर्षणीधृतम् राजानम् जर्षडीधृतम् सखे सखाय मध्यापृत्स्वानन्दचक्रम् वृक्षे वरम् यास्मभ्यम् दस्परम् याः अग्ने मृणीकम् वरुणे स चाराविदो मरुत्सु विश्वभानुषु लोकाय तु तेषु सुसङ्कृध्यस्मभ्यम् वस्मसङ्कृधि वन्नाः अग्ने मरुणस्य विद्वान् देवस्य हेणोपायासि श्रेष्ठाः यजिष्ठो वह्ने तमस्वसु चालो विश्वार्येषा प्रमो तत्पन्नाग्नेपो भयभूतीरेष्टो अस्या बुधसोऽष्टौ अवयक्ष्मणो वरुनन्द्राणो वीहिकम् सुभवो नयेधि अस्य श्रेष्ठा सुभगस्य चन्द्रग्देवस्य चित्रतमामर्त्येषु श्रीहृदन्नसप्तमज्ञाया स्वागदेवस्य मम् भनेवधेनोः ृकस्य तापरमासनम् दिशत्य स्वारुघदेवस्य जनीमान्यग्नेः अनन्ते अन्तः परिवेदागा शुक्रो अर्जुनरोचानः स दूतो विश्वेदभिवक्ति सद्बाहोताहिरण्रम् सुजिह्वाः सौर्योपपुरुष्यो विभासदा रण्वस्ति सेतजन्मनुषो यज्ञपम् धः प्रदम् ह्यारसनजाहारयन्ति स क्षेत्यस्य दुर्यासुसाधन् देवो भक्तस्य स ध निवा स लोलो अग्निर्न यदुप्रजानन्नच्छारत्वम् देवभक्तम् यदस्य धिया यद्विश्वे अमृताकम् यत प्रथमः पस्यासुमहो बुद्धेन चो अस्य यो नौ अवादशीर्घ गुहमानो अन्धयो युवानो वृषभस्य नीडे। प्रलद्ध आर्त प्रथमम् विपन्यान्द्र यो वृषभस्य नीले स्वारोपुष्या विभावा सप्तप्रियादो जनयन्तविष्णे जन अधस्माकमत्र पितरो मनुष्या अभिप्रदे जनुमितमा सुषाणाः अस्मम् प्रजा सुदुघा भव्रे अन्तर्दुस्राः जुषसो हुबानाः मृजदवांसोऽ तदे रामन्ये अभितो विवोचन् अश्वयम् राजोऽभिकारमर्चन्विदन्तज्ज्योतिश्च कृपन्त दीभिः ये गौ यदा मलदा दृढ्रमुग्ध्वम् राजे मानम् परिणम् तद्रिम् दृढङ्गरोप च सादैर्येण हृदङ्गमन्दुसिजाविमरु